कृष्णयजुर्वेदे क्रमपाठे तृतीयकाण्डे चतुर्थः प्रश्नः प्रारम्भः ॐ विवयस्य एतस्य यज्ञः यद्ना, यज्ञरुध्यते रुध्यते यस्य यस्य हविः हविरतिरिच्यते अतिरिच्यते सूर्यः अतिरिच्यत इत्यतिरिच्यते सूर्यो देवः देवोदिविशद्भ्यः दे विविशद्भ्यैति दे विशद्भ्यैति विशदेभ्यः इत्याह वि आह बृहस्पतिना च सैव एवास्य अस्य प्रजापतिना प्रजापतिना च प्रजापतिनेति प्रजापतिनाम् स यज्ञस्य यज्ञस्य व्यर्थम् व्यर्थमपि व्यर्थमिति वीर्धम् अपि वपतिरक्षांसि रक्षागुंसि रक्षा वै वा एतत् एतत्पशुम् पशुगम् सचन्ते सचिन्ते यत् एकदेवत्यः आलब्धः एकदेवत्य इत्येका देवत्यः आलब्धो भूयान् भवति भवति यस्या आह यस्या आस्ते ते हरितः हरितो गर्भः गर्भ इति इत्याह आहदेवत्रा देवत्रैव देवत्रेति देवात्रा एवैनाम् दे एनाङ्गमयति दे नमेति रक्षसाम् रक्षसामुपहत्यै अपहत्या आ अपहत्या इत्यपाहत्यै आवर्तन वर्तनवर्तय वर्तयेति इत्याह आह ब्रह्मणा ब्रह्मणैव एवे नमा आवर्तयति वर्तयति वि इते ए ते भिनद्मिनद्मितकरीम् तकरीमिति इत्याह आह यथा यजुः यथा यजुरेव यथा यजुरिति यथा यजुः एवैतत् एतद् रुद्रप्सः रुद्रप्सा विश्वरूपः रुद्रप्स इत्युरुद्रप्सः विश्वरूप इन्दुः विश्वरूप इति विश्वारूपः इन्दुरिति इत्याह आह प्रजा प्रजा प्राजा वै पशवः पशव प्रजयैव प्रजयेति प्रादिदा एवैनम् एनम् पशुभिः पशुभिः सम् पशुभिरिति पशुभिः सवर्धयति अर्धयतिदिवम् इवम् वै वै यज्ञस्य यज्ञस्य व्यर्थम् व्यर्थम् गच्छति व्यर्थमिति व्यरुद्धम् गच्छति पृथिवीम् पृथिवीमतिरिक्तम् अतिरिक्तम् तत् अतिरिक्तमित्यतिरिक्तम् तद्यत् इदं न शमयेत् शमयेदार्तिम् आर्तिमा आर्च्छयेत् यच्छेद्विदमानः यजमानो मही महीद्यौः द्यौः पृथिवी पृथिवी च शमः न इति इत्याह आहद्यावापृथिवीभ्याम् द्यावापृथिवीभ्यामेव द्यावापृथिवीभ्यामि द्यावाः पृथिवीभ्याम् यज्ञस्य यज्ञस्य व्यर्थम् व्यर्थम् च व्यर्थमिति विरुद्धम् चातिरिक्तम् अतिरिक्तम् च च शमयति शमयति न नार्तिम् आर्तिमा पृच्छति यजमानः यजमानो भस्मना भस्मनाभि अभिसम् समूहति ऊहति सुगाकृत्यै सुगाकृत्या अथो अस्वगाकृत्या इति स्वगाकृत्य अथो अनयोः अथो इत्यथो अनयोर्वै वा एषः एष गर्भः गर्भोनयोः अनयोरेव एवैनम् एनम् दधाति दधाति यत् यदवद्येत् यत अवद्येदिति अवद्येदित्यवाद्येत् अतितत् अव एतयेद्यत् यन्न नापद्येत् अवद्येत् पशोः अवद्येदित्यवाद्येत् पशोरालब्धस्य आलब्धस्य न आलब्धस्येत्यालब्धस्य न वा अवद्येत् यत्पुरस्तात् पुरस्ताम् नाभ्या आह नाभ्या अन्यत् अन्यत् अपद्येत् अवद्येदुपरिष्टात् अवद्येदित्यवाद्येत् उपरिष्टादन्यत् अन्यत्पुरस्तात् पुरस्ताद्वै वै नाभ्यैः नाभ्यैः प्राणः प्राण उपरिष्टात् प्राण इति प्राणः उपरिष्टादपानः अपानो यावान् अपानयत्यपानः यावानेव एव पशुः पशुस्तस्य तस्या वा अवदिति यदि विष्णवे विष्णवे शिपिविष्टाय शिपिविष्टाय जुहोति शिपिविष्टाय इति शिपिविष्टाय यद्वै वै यज्ञस्य यज्ञस्यातिरिच्यते अतिरिच्यते अतिरिच्यत इत्यतिरिच्यते यः पशोः पशोर्भूमा भूमा या या पुष्टिः पुष्टिस्तत् तद्विष्णुः विष्णुशिपि विष्टः शिपिविष्णोतिरिक्ते शिपिविष्ट इति शिपिविष्टः अतिरिक्त एव अतिरिक्त इत्यतिरिक्ते एवातिरिक्तम् अतिरिक्तम् दधाति अतिरिक्तस्य शान्तिः अतिरिक्तस्येत्यतिरिक्तस्य शान्त्या अष्टाप्रूट् अष्टाप्रूढिरण्यम् अष्टाप्रूडित्यष्टाप्रूट् हिरण्यम् दक्षिणा दक्षिणा अष्टापदी अष्टापदीः अष्टापदीत्यष्टापदी ह्येषा एषात्मा आत्मा नवमः नवमः पचोः आप्त्या पचो अन्तरकोशे अन्तरकोश उष्णेषेण अन्तरकोष इत्यन्तराकोशे उष्णेषेणाविष्टितम् भवति आविष्टितमित्याविष्टितम् भवत्येवम् एवमिव इव हि हि पशुः पशुरुल्बम् उल्बमिव इव शर्म चर्मे वा इव माग्ंसम् माग्ंसमिव इवास्थि अस्थिव इव यावान् आवानेव एव पशुः पशुस्तम् तमाप्त्वा आप्त्वा वा अवरुन्धे रुन्धेजस्य यस्यैषा एषा यज्ञे यज्ञे प्रायश्चित्तिः क्रियते क्रियत इष्ट्वा इष्ट्वावसीयान् वसीयान् भवति वसी भवतीति भवति भवती आवाजो वाजो भूष वाजो, वाजो इति वाजो भूषिशुचिपाः शुचिपा उप शुचिपा इति शुचिपाः उपनः अस्सहस्रम् सहस्रम् ते ते नियुतः नियुतो विश्ववार नियुत इति नियुतः विश्ववारेति विश्वार उपो ते उपो इत्युपो ते अन्धः अन्धो मद्यम् मद्यमयामि ययामि यस्य देव देवदधिषे दधिषे पूर्वपेजम् पूर्वपेजमिति पूर्वापेजम् आकूर्त्यै त्वा आकूर्त्या इत्याकूर्ति त्वा कामाय कामाय त्वा त्वा समृधेः समृधेय त्वा समृध इति सामृधे स्वाहा प्रजापतयेति प्रजापतये स्वाहा किटा किटाते ते प्राणम् प्राणमिति प्राणम् वादवे स्वाहा स्वाहाकिक्किटा इक्किटाते ते चक्षुः चक्षुःसूर्याय सूर्यादिस्वाहा स्वाहागिक्किटा इक्किटाते ते श्रोत्रम् श्रोत्रम् द्यावापृथिवीभ्याम् द्यावापृथिवीभ्यागस्वाहा देवापृथिवीभ्यामिति द्यावाः पृथिवीभ्याम् स्वाहाकिक्किटा इक्किटाते ते वाचम् वाचिम् सरस्वती सरस्वत्यी स्वाहा स्वाहा त्वम् त्वम् तुलीया वशिनीः वशिनी वशा वशासि असि सकृत् सकृद्यत् यत्त्वा तुर्णा, त्वा मनसा गर्भः गर्भा अशयत् अशयत् इत्यशयत् वशा त्वम् त्वम् गच्छ गच्छ देवान् देवान् सत्याः सत्याः यजमानस्य यजमानस्य कामाः कामा इति कामाः अजासि सि रजिष्ठा अयिष्ठा पृथिव्याम् अयिष्ठेतिरयि स्था पृथिव्या गुंसीद सीदोर्ध्वा ऊर्ध्वान्तरिक्षम् अन्तरिक्षमुप उपतिष्ठस्व तिष्ठस्व विवि दिविविवि ते ए बृहत् बृहद्भाः भा इति भाः तन्तुम् तन्वन् तन्वन् रजसः रजसो भानुम् भानुमनुविः इहि ज्योतिष्मतः ज्योतिष्मतः पथः पथो रक्ष रक्षधिया धिया कृतान् कृतानिति अनुर्बणम् वयत वयत जोगुवाम् जोगुवामपः मनुर्भव अवजनय जनया दैव्यम् दैव्यम् जनम् जनमिति जनम् मनसो हविः हविरसि असि प्रतापतेः प्रजापतेर्पर्णः प्रजापतेरति प्रजापतेः वर्णो गात्राणाम् गात्राणाम् ते ते गात्रभाजः गात्रभाजो भूयास्म गात्रभाज गात्राभाजः भूयास्मेति भूयास्म इमे वै इमे इति इमे वै सः सहा, सहास्ताम् आस्ताम् ते ते वायुः ते इति ते वायुर्विव्यवात् ते गर्भम् ते इति ते गर्भमदधाताम् दधातान्तम् सोमः सोमः प्राजनयत् अथमेदग्निः अग्निरग्रसत अग्रसतसः स एतम् एतम् प्रजापतिः प्रजापतिराग्नेयम् प्रजापतिरिति प्रजापतिः आग्नेयमष्टाकपालम् अष्टाकपालमपश्यत् अष्टाकपालमित्यष्टाकपालम् अपश्यत्तम् तन्निः निरवपत् अवपत्तेन तेनैव एवेनाहम् एनामग्नेः अग्नेरधि अधिनिः यः क्रीडात् अक्रीडात् तस्मात् तस्मादपि अप्यन्यदेवत्याः अन्यदेवत्यामालभमानः अन्यदेवत्यामित्यन्या देवत्याः आलभमान आग्नेयम् आलभमान इत्या आलभमानः आग्नेयमष्टाकपालम् अष्टाकपालम् पुरस्तात् अष्टाकपालमित्यष्टाकपालम् पुरस्ताम्निः निर्वपेत् वपेदग्नेः अग्नेरेव अग्ने एवेनाम् एनावधि अधिनिष्क्रिय निष्क्रिया निष्क्रियेतिनिः क्रिया आलभते लभते यत् यद्वायोः वायुव्यवात् व्यवात्तस्मात् व्यवादिति वि अवाहात् तस्माद्वायव्याः तस्माद वायुव्यायत् यदिमे इमे गर्भम् इमे इतीमे गर्भमदधाताम् अदधाताम् तस्मात् तस्माद्यावापृथिव्याः द्यावापृथिव्यायत् द्यावापृथिव्येति द्यावापृथिव्याः यत्सोमः सोमः प्राजनयत् अजनयदग्निः अग्निरग्रसत अग्रसत तस्मात् तस्मादग्निशोमीयाः अग्निशोमीयायत् अग्निशोमीयेत्यग्निसोमीया यदनयोः अनयो अर्वियेत्योः वियत्योर्वाग् वियत्योरिति वियत्योः वागवदत् अवदत्तस्मात् तस्मात् सारस्वती सारस्वती यत् यत्प्रजापतिः प्रजापतिरग्नेः प्रजापतिरिति प्रजापतिः अग्नेरधि अधिनिरक्रीणात् निरक्रीणात्तस्मात् निरक्रीणादितिनिरक्रीणात् तस्मात् प्राजापत्या प्राजापत्या सा प्राजापत्येति प्राजापत्या सा वा एषा एषा सर्वदेवत्या यत् सर्वदेवत्येति सर्वा यदजा यजावशा एषा वायुव्याम् आलभेत लभेत भूतिकामः भूतिकामो वायुः भूतिकाम इति भूतिकामः वायुर्वै वै क्षेपिष्ठा देवता देवता वायुम् एवस्वेन स्वेन भागधेयेन भागधेदेनोप भागधेयेन धावति धावति सः स एव एवेनम् एनम् भूतिम् भूतिम् गमयति गमयति द्या वा पृथिव्याम् द्यावापृथिव्यामा या वा पृथिव्यामिति द्या वा पृथिव्याम् आलभेत लभेत प्रतिष्ठाकामः प्रतिष्ठाकामो दिवः प्रतिष्ठाकामयति प्रतिष्ठाकामः इव एव एवास्मै अस्मै पर्जन्यः पर्जन्यो वर्षति वर्षति विद्य द्यस्याम् अस्यामोऽभयः ओषधयो रोहन्ति रोहन्ति समर्धुकम् समर्थुकमस्य समर्थुकमिति समर्थुकम् अस्य सस्यम् सस्यम् भवति भवत्यग्निशोमीया अहम् अग्नेशोमीयामा अग्निशोमीयामित्यग्नि सोमीया अहम् आलभेत लभेतयः यः कामयेत कामयेतान्नवान् अन्नवान्नादः अन्नवानित्यन्नावान् अन्नादस्याहम् अन्नादित्यन्नादः स्यामिति इत्यग्निना अग्निनैव एवान्नम् अन्नमव अवरुन्धे वृन्धे सोमेन सोमेनान्नाद्यम् अन्नाद्यमन्नवान् अन्नाद्यमित्यन्नाद्यम् अन्नवादेव अन्नवादित्यन्नावान् एवान्नादः अन्नादो भवति अन्नाद इत्यन्नादः भवति सारस्वतीम् सारस्वतीमा लभेत लभेतयः य ईश्वरः ईश्वरो वाचः वाचोवदितोः पतितोः सन् सन्वाचम् वाचन्न न वदेत् वै सरस्वती सरस्वती सरस्वतीम, सरस्वतीम् सरस्वतीमेव एव स्वेन स्वेन भागधेदेन भागधेलेनोपभागधेलेनेति भागधेदेन उपधावति धावति सा सैव वा, एवास्मिन् अस्मिन्वाचम् वाचम् दधाति दधाति प्राजावत्याम् प्राजावत्यामा आलभेत <mí> लभेत यः यः कामयेत कामयेतानभिजितम् अनभिजितमभि अनभिजितमित्यनभिजितम् अभिजयेयम् इति प्रजापतिः प्रजापतिः सर्वा आह प्रजापतिरिति प्रजापतिः सर्वा देवता आह देवता, देवता, भी, देवता भी, अनभिजितमित्यनभिजितम् अभिजयति वेति वायव्यया वायव्यपाकरोति उपाकरोति वायोः उपाकरोति इत्युपा आकरोति वायोरेव एवेनाम् एनामवृद्ध्य अवृद्ध्या अवृद्ध्येत्यवरुध्य अलभते लभत आकूवृत्ति आकोवृत्ति त्वा आकोवृत्त्या इत्याकूर्ति का कामाय कामादित्वा त्वेति इत्याह आह यथायजुः यथायजुरेव यथा यजुरिति यथा यजुः एवेदत् एतत् किक्किटाकारम् किक्किटाकारम् जुहोति किक्किटाकारमिति किक्किटाकारम् जुहोति किक्किटाकारेण किक्किटाकारेण वै किकारेण इति किक्किटाकारेण वै ग्राम्याः ग्राम्याः पशवः पशवो रमन्ते रमन्ते प्रारण्याः आरण्याः पतन्ति पतन्ति यत् यत्किक्किटाकारम् किक्किटाकारम् जिहोति किक्किटाकारमिति किक्किटाकारम् <advocated> जुहोति ग्राम्याणाम् ग्राम्याणाम् पशूनाम् पशूनाम् धृतीः धृत्यै पर्यग्नौ पर्यग्नौ क्रियमाणे पर्यग्नाविति पर्यग्नौ क्रियमाणे जुहोति जुहोतिजीवन्तीम् जीवन्तीमेव जीवन एवेनाम् एनागम् सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वहागम् लोकम् गमयति गमयति त्वम् त्वम् तुरीयाः तुरीया वशिनीः वशिनीवशा वशासि असीति इत्याह आह देवर्त्रा देवत्रैव देवत्वेत देवात्रा देवीनाम् एनाङ्गमयति गमयति सत्याः सत्याः सन्तु कामाः कामा इति इत्याह आहैषः एष वै कामो यजमानस्य यजमानस्य यत् यदनार्तः अनार्त उदृचम् उदृचम् गच्छति ऋचमित्युदरुचम् एवमाह आहा अजासि असिरिष्ठा अयष्ठेति अयष्ठेतिरैः स्था इत्याहीषु एष्वेव एवेनाम् एनां लोकेषु लोकेषु प्रति प्रतिष्ठापयति स्थापयति दिवि दिवि ते ए ते बृहत् बृहद्भाः भा इत्याह आह सुवर्गे सुवर्ग एव सुवर्ग इति सुवभागे एवास्मै अस्मै लोके लोके ज्योतिः ज्योतिर्दधाति तथा तन्तुम् तन्तुम् तन्वम् तन्वम् रजसः रजसो भानुम् भानुमनु अन्विः इहीति इत्याह आहेमान् इमानेव एवा, एवास्मै अस्मै लोकान् लोकान् ज्योतिष्मतः ज्योतिष्मतः करोति करोत्यनुल्बणम् अनुल्बणम् वयत वयत जोगवाम् ज्योगुवामपः अप इति इत्याह आहयत् यदेव एव यज्ञे यज्ञ उल्बणम् क्रियते ए, क्रियते तस्यैव एवैषा एषा शान्तिः शान्तिर्मनुः मनुर्भव भवजनया तनया दैव्यम् दैव्यञ्जनम् जनमिति इत्याह आह मानव्यः मानव्यो वै वै प्रजा इति प्राजाः ता एव एवाद्याः आद्याः कृते मनसः मनसो हविः अविरसि इत्याह आह सुगाकृत्यै सुगाकृत्यै गात्राणाम् सुगाकृत्या इति सुगाकृती गात्राणाम् ते भूयास्म गात्रभाज इति भूयास्मेति इत्याह आहाशिषम् आशिषमेव आशिषमित्या आशिषम् एवैताम् एतामा आशास्ते शास्ते तस्यै तस्यै वै वा एतस्या एतस्य एकम् एकमेव एवादेवयजनम् अदेवयजन्य तदेव इदनमित्यते वा यजनम् यदालब्धायाम् आलब्धायामभ्रः आलब्धायामित्यालब्धायाम् अभ्रो भवति भवति यत् यदालब्धायाम् आलब्धायामभ्रः आलब्धायामित्यालब्धायाम् अभ्रः स्यात् स्यादप्सु अप्सु वा अप्सुत्यपुसु वा प्रवेशयेत् प्रवेशयेत्सर्वाम् प्रवेशयेदिति प्रावेशयेत् सर्वाम् वाम् वाप्राश्नीयात् अश्नीयादित् यदप्सु अप्सु प्रवेशयेत् अप्सित्यपुःसु प्रवेशये यद्यज्ञवेशसम् प्रवेशयेदिति प्रवेशयेत् यज्ञवेशसम् कुर्यात् सर्वामेव एवप्र प्राश्नीयात् अश्नीयादिन्द्रियम् इन्द्रियमेव एवात्मन् आत्मन् धत्ते धत्ते वा एषा एषा त्रजाणाम् त्रयाणामेव अवरुद्धा संवत्सरसदः अवरुद्धेत्यवावृद्धः संवत्सरसदः सहस्रयाजिनः संवत्सरसद इति संवत्सरासदः सहस्रयाजिनो गृहमेधिनः सहस्रयाजिनैति सहस्रायाजिनः गृहमेधिनस्ते तेषामेव एवैषा एषाप्ता आप्तेत्याप्ता चित्तम् च च चित्तिः चित्तिश्च चाकूतम् आकूतम् च आकूतमित्याकूतम् चकूतिः आकोतिश्च आकोतिरित्याकूतिः स विज्ञातम् च विज्ञातमिति च विज्ञानम् विज्ञानम् च विज्ञानमिति मनश्च स शकवरीः शकवरीश्च सदर्शः दर्शश्च स पूर्णममासः पूर्णममासश्च पूर्णमास इति पृथच्च च रथम् परम् च रथम् परमितीर्थम् परम् च प्रजापतिः प्रजापतिर्जयान् प्रजापतिरितिप्रजापतिः तजा निन्द्राज इन्द्राजपृष्णेः वृष्णे प्रायच्छत् प्रयच्छदुग्रः उग्रः पृतराज्येषु पृतराज्येषु तस्मै तस्मै विषः विषः सम् समनमन्त अनमन्तसर्वा आह सर्वाः सह स उग्रः उग्रः सह देवासुराः संयत्ताः देवासुरा इति देवासुराः संयत्ता आसन् संयत्ता इति संयत्ताः आसान् इन्द्रः इन्द्रः प्रजापतिम् प्रजापतिमुप प्रजापतिमिति प्रजापतिम् उपाधावत् यथावत्तस्मै तस्मा एतान् एताञ्जयान् जयान्प्रायच्छत् अयच्छत्तान् तान्जुहोत् अजोत्ततः ततो वै वै देवाः देवासुरान् असुरान् जयन् अजयनयत् यदजयन् अजयन् तत् तज्जयानाम् जयानाञ्जयत्वम् जयत्वग्स्पर्धमानेन जयत्वमिति जयात्वम् एते होतव्या आह होतव्या जयति जयत्येव एवताम् ताम् पृतनाम् भूतानामधिपतिः अधिपतिः सह अधिपतिरित्यधिपतिः समा मावतु अवत्विन्द्रः इन्द्रो अज्येष्ठानाम् ज्येष्ठानाम् गमः इमः पृथिव्याः पृथिव्या वायुरन्तरिक्षस्य अन्तरिक्षस्य सूर्यः सूर्यो दिवः दिवश्चन्द्रमाः चन्द्रमा नक्षत्राणाम् नक्षत्राणाम् बृहस्पतिः बृहस्पतिर्ब्रह्मणः ब्रह्मणो मित्रः मित्रसत्यानाम् सत्यानाम् वरुणः वरुणोपा अपागंसमुद्रः समुद्रस्रोत्यानाम् श्रोत्यानामन्नम् अन्नकंसाम्राज्यानाम् साम्राज्यानामिति साम्राज्यानाम् अधिपतितत् अधिपतीत्यधिपति तन्माह मातु भवतु सोमः सविता सविता प्रसवानाम् रुद्रः प्रसवानामिति रुद्रः पशूनाम् पशूनाम् त्वष्टाम् त्वष्टारूपाणाम् रूपाणाम् विष्णुः विष्णुः पर्वतानाम् पर्वतानाम् मरुतः मरुतो गणानाम् गणानामधिपतयः अधिपतयस्ते अधिपतग इत्यधिपतगः हेमाह मा वन्तु भवन्तु पितरः पितरः पितामहाः पितामहाः परेः परे परेः अपरे तताः ततास्ततामहाः पितामहा इह इह माहा मावत अवतेत्यवत अस्मिन् ब्रह्मन् ब्रह्मन्नस्मिन् अस्मिन् क्षत्रे क्षत्रेस्याम् अस्यामाशिषि आशिष्यस्याम् आशिषीत्या आशिषि अस्याम् पुरोधायाम् पुरोधायामस्मिन् पराधायामिति प्रहाधायाहम् अस्मिन्कर्मणे कर्मणस्याम् अस्याम् देवहोहूत्याम् देवहो हूत्यामिति देवाहोत्याहम् देवा वै वै यत् यद्यज्ञे यज्ञे कुर्वत अकुर्वत तत् अदसुराः असुरा अकुर्वत अकुर्वतते ते दे देवाः देवा एतान् एतानभ्यातानान् अभ्यातानानपश्यन् अभ्यातानानित्यभि आतानान् अपश्यन्तान् तान् अभ्यातम्वत अभ्यातम् व्रतयत् अभ्यातम् वतेत्यभि आतन्वत यद्देवानाम् देवानाम् कर्म कर्मासीत् आसीदार्ध्यत आर्ध्यतत् तद्यत् यदसुराणाम् असुराणाम् न तत् तदा आर्ध्यत आर्ध्यतयेन येन कर्मणा कर्मणेऽर्च्छेत् ईर्च्छेत्तत्र तत्र होतव्याह होतव्यार्थ्नोति गृध्नोत्येव एव तेन तेन कर्मणा कर्मणा यत् विश्वे देवाः देवाः समभरन् समभरन् तस्मात् समभरन् इति सम् अभरन् तस्मादभ्यातानाः अभ्यातानाभि इष्वदेवाः अभ्याताना इत्यभियातानाः वैश्वदेवायत् वैश्वदेवा इति वैश्वादेवाः यत्प्रजापतिः प्रजापतिर्जयाने प्रजापतिरिति प्रजापतिः जयान् प्रायच्छत् अयच्छत्तस्मात् तस्माज्जयाः यया अप्राजापत्याः प्राजापत्यायत् प्राजापत्या इति प्राजापत्याः यद्राष्ट्रभृद्भिः राष्ट्रभृद्भिः राष्ट्रम् राष्ट्रभृद्भिरिति राष्ट्रभृतभिः राष्ट्रमा आदत अददत तत् तत्राष्ट्रभृताम् राष्ट्रभृताकम् राष्ट्रभृत्वम् राष्ट्रभृतामिति राष्ट्राभृताम् राष्ट्रभृत्वम् ते राष्ट्रभृत्वमिति राष्ट्रभृतत्वम् हे देवाः देवा अभ्यातानीः अभ्यातानैरसुरान् अभ्यातानैरित्यभिः आतानीः असुरादभ्यातम् व्रत अभ्यातम् वतजैः अभ्यातम् व्रतेत्यभिः आतम् व्रत यैरचयन् अजयन् राष्ट्रभृद्भिः राष्ट्रभृद्धि राष्ट्रम् राष्ट्रभृद्भिरिति राष्ट्रभृतभिः राष्ट्रमा आदत अददतयत् यद्देवाः देवा अभ्यातानीः अभ्यातानैरसुरान् अभ्यातानैरित्यभिः आतानैः असुरादभ्यातम् वत अभ्यातम् वत तत् अभ्यातम् वतेत्यभिः आतन्वत तदभ्यातानानाम् अभ्यातानानामभ्यातानत्वम् अभ्यातानानामित्यभिः आतानानानानानानानानानानानाम् अभ्यातानत्वम् यत् अभ्यातानत्वमित्यभ्यातानात्वम् यज्जयीहि जगैरजयन् जयन् तत् तज्जयानाम् जयानाम् जयत्वम् जयत्वञ्यत् जयत्वमिति जया त्वम् यद्राष्ट्रभृद्भिः राष्ट्रम् राष्ट्रभृद्भिरिति राष्ट्रभृद्भिः राष्ट्रमान् आदत अददत तत् तद्राष्टभृताम् राष्ट्रभृताकम् राष्ट्रभृत्वम् राष्ट्रभृतामिति राष्ट्राभृताम् राष्ट्रभृत्वम् ततः राष्ट्रभृत्वमिति राष्ट्रभृतत्वम् ततो देवाः देवा अभवन् अभवन्पराः परासुराः असुरायः यो भ्रातृव्यवान् भ्रातृव्यवान् स्यात् भ्रातृव्यवानिति भ्रातृवान् स्यात्सः स एतान् एताञ्जुहयात् जुहयात् अभ्यातानैः अभ्यातानीरेव अभ्यातानीरित्यभिः आतानीः एव भ्रातृव्यान् भ्रातृव्यान् अभ्यातनुते अभ्यातनुते जयैः अभ्यातनुते इत्यभिः आतनुते जयैर्जयति येति राष्ट्रभृद्भिः राष्ट्रभृद्भिः राष्ट्रम् राष्ट्रभृद्भिरिति राष्ट्रभृतभिः राष्ट्रमा आदत्ते दत्ते भवति भवत्यात्मना आत्मना परापरा अस्य अस्य भ्रातृव्यः भवति भवतीति भवति ताषा ऋतधामा ऋतधामाग्निः ऋतधामे त्रिताधामाः अग्निर्गन्धर्वः नन्धर्वस्त्रस्य तस्य औषधयः ओषधयोऽप्सरसः अप्सरस ऊर्जः ऊर्जो नाम नाभसः स इदम् इदम् ब्रह्म ब्रह्मक्षत्रम् क्षत्रम् पातु पातु ताः ब्रह्म ब्रह्मक्षत्रम् क्षत्रम् पान्तु तस्मै स्वाहा स्वाहाताभ्यः ताभ्यः स्वाहा स्वाहासमूहितः ंहिता विश्वसामा सगंहित इति संहितः विश्वसामा सूर्यः विश्वसामिति विश्वसामा सूर्यो गन्धर्वः गन्धर्वस्तस्य तस्य मरीचयः मरीचयोऽप्सरसः अप्सरस आयुवः आयुवः सुषुम्नः आयुव इत्या आयुवः सुषुम्नः सूर्यरश्मिः सुषुम्न इति सुसुम्नः सूर्यरश्मिरिति सूर्यारश्मिः चन्द्रमा गन्धर्वः गन्धर्वस्तस्य तस्य नक्षत्राणि नक्षत्राण्यप्सरसः अप्सरसो बेकुरजः वेकुरयो भुजुः भुज्युः सुपर्णः सुपर्णो यज्ञः सुपर्ण इति सुपर्णः यज्ञो गन्धर्वः गन्धर्वस्तस्य तस्य दक्षिणाः दक्षिणा अप्सरसः अप्सरसस्तवाः स्तवाः प्रजापतिः प्रजापतिर्विश्वकर्मा प्रजापतिरिति प्रजापतिः विश्वकर्मा मनः विश्वकर्म इति मनो गन्धर्वः गन्धर्वस्तस्य तस्य ऋक्सामानी ऋक्सामान्यप्सरसः ऋक्सामानेतृक्सामानी अप्सरसो वह्नयः वह्नय इषिरः इषिरो विश्वव्यचाः विश्वव्यचावातः विश्वव्यचा इति विश्वाव्यचाः वातो गन्धर्वः गन्धर्वस्तस्य तस्यापः उपरि उपरि गृहाः गृहा इह इह चेति च सनः नोरास्व रास्वार्जालिम् पोषकम् सुवीर्यम् सुवीर्यकम् संवत्सरीणाम् सुवीर्यमिति सुवीर्यम् संवत्सरेणामिति स्वस्तिम् संवत्सरेणामिति संवत्सरिणाम् स्वस्तिमिति स्वस्तिम् परमेष्ठ्यधिपतिः अधिपतिर्मृत्युः अधिपतिरित्यधिपतिः मृत्युर्गन्धर्वः गन्धर्वस्तस्य तस्य विश्वम् विश्वमप्सरसः अप्सरसो भवः भवः सुक्षितिः सुक्षितिः सुभूतिः सुक्षितिरिति सोक्षितिः सुभूतिर्भद्रकृत् सुभूतिरिति सोभूतिः भद्रकृत्सुवर्वान् भ्द्राग्रत भद्रकृदिति भद्राकृत् सुवर्वान् पर्जन्यः सुवर्वान् इति सुवभावान् गन्धर्वः गन्धर्वस्थस्य तस्य विद्युतः विद्युतोऽप्सरसः विद्युत इति विद्युतः अप्सरसो रुचः रुचो दूरे हेतिः दूरे हेतिरमृडयः दूरे हेतिरिति प्रजाः प्रजा अप्सरसः प्रजा इति अप्सरसो भेरवः भेर्वश्चारुः चारुः कृपणकाशी कृपणकाशी कामः कृपणकाशीति कृपणाकाशी कामो गन्धर्वः गन्धर्वस्तस्या तस्याधयः अप्सरसः आधय इत्याधयः अप्सरसः शोचयन्तीः शोचयन्तेर्नामा नाम सः ब्रह्म ब्रह्मक्षत्रम् क्षत्रम् पातु पातुताः आदम् इदम् ब्रह्म ब्रह्मक्षत्रम् क्षत्रम् पान्तु तान् तु तस्मै तस्मै स्वाहा ता स्वाहाताभ्यः ताभ्यः स्वाहा स्वाहासः सनः भुवनस्य भुवनस्य प्रतेजे प्रतेजस्यते उपरि उपरि गृहाः गृहा इह इह चेति च गुरुब्रह्मणे ब्रह्मणेस्मै तस्मै क्षत्राय क्षत्राय महि महिशर्म शर्म राष्ट्रकामाय होतव्याहाः राष्ट्रकामायेति राष्ट्राकामाय होतव्या राष्ट्रम् वै वैरा अष्टभृतः राष्ट्रेण राष्ट्रभृत इति राष्ट्राभृतः राष्ट्रेणैव एवास्मैः अस्मै राष्ट्रम् राष्ट्रमव अवरुन्धे वृन्धे राष्ट्रम् राष्ट्रमेव एव भवति भवत्यात्मनेः आत्मने होतव्या राष्ट्रम् वै वैराष्टभृतः राष्ट्रभृतो राष्ट्रम् राष्ट्रभृत इति राष्ट्राभृतः राष्ट्रम् प्रजा प्रजा प्रजेति प्राजा राष्ट्रम् पशवः पशवो राष्ट्रम् राष्ट्रम् यत् यच्छ्रेष्ठः श्रेष्ठो भवति भवति राष्ट्रेणाम् राष्ट्रेणैव एव राष्ट्रम् राष्ट्रमव अवरुन्धे वृन्धे वसिष्ठः वसिष्ठः समानानाम् भवति भवति ग्रामकामाय ग्रामकामाय होतव्या आह ग्रामकामायेति ग्रामाकामाय होतव्या वै वैराष्ट्रभृतः राष्ट्रभृतो राष्ट्रम् राष्ट्रभृत इति राष्ट्राभृतः राष्ट्रकम् स जाताः सुजाता राष्ट्रेण सजाता इति सा जाताः राष्ट्रेणैव एवास्मै अस्मै राष्ट्रम् राष्ट्रकम् स जातान् सजातानव सजातानिति सजाता सा जातान् अवरुन्धे रन्धे ग्रामी ग्राम्येव एव दे, भवति भवत्यधिदेवने अधिदेवने च भवति अधिदेवनैत्यधिलेवने युहोत्यधिदेवने अधिदेवन एव अधिदेव नैत्यधीदेवने एवास्मै एवा। अस्मै सजातान् सजातान् वा सजातानिति स जातान् अवरुन्धे रन्धेते त एनम् एनमवृद्धाः अवरुद्धा उप अवरुद्धा इत्यवरुद्धाः उपतिष्ठन्ते तिष्ठन्ते रथमुखे रथमुख ओजस्कामस्य रथमुख इति रथामुखे ओजस्कामस्य होतव्या आह ओजस्कामस्येत्यौजः कामस्य ओदव्या ओजः ओजो वै वैराष्ट्रभृतः राष्ट्रभृत ओजः राष्ट्रभृत इति राष्ट्राभृतः ओजोरथः ओजसा ओजसैव एवास्मै अस्माजः ओजो वा अवरुन्धे रुन्धे ओजस्वेव एव भवति भवति यो राष्ट्रात् राष्ट्रादपभूतः अपभूतः स्यात् अपभूत इत्यपाभूतः स्यात्तस्मै तस्मै होतव्या आह होतव्या यावन्तः यावन्तोऽस्य अस्य रथा आह रथाः स्युः सिस्तान् तान् ब्रूयात् ब्रूयाद्युन्धम् व्युन्धमिति इति राष्ट्रम् राष्ट्रमेव एवास्मै अस्मैनक्तिरक्त्याहुतयः आहुतयो वै आहुतय इत्याहुतयः वा एतस्य एतस्याग्लृप्ताः अग्लुप्ता यस्य यस्य राष्ट्रम् राष्ट्रम् न कल्पते कल्पते स्वरथस्य स्वरथस्य दक्षिणम् स्वरथस्येति स्वार्थस्य दक्षिणम् चक्रम् चक्रम् प्रवृष्य प्रवृष्य नाडीम् प्रवृष्येति प्रावृष्य नाडीमभि अभिजुहुयात् थुञाद। जुहुयादाहुतीः आहुतीरेव एवास्य अस्य कल्पयति कल्पयति अस्य अस्य कल्पमानाः कल्पमाना राष्ट्रम् राष्ट्रमनु अनुकल्पते कल्पते सङ्ग्रामे सङ्ग्रामे संयत्ते सङ्ग्राम संयत्ते होतव्या आह संयत्त इति सायत्ते होतव्या राष्ट्रम् राष्ट्रम् वि अष्टभृतः राष्ट्रभृतो राष्ट्रे राष्ट्रभृत इति राष्ट्राभृतः राष्ट्रे खलु खलु वि वा एते एतेभ्यायच्छन्ते यायच्छन्ते ये यायच्छन्ते इति आगच्छन्ते ये सङ्ग्रामम् सङ्ग्रामकम् संयन्ति सङ्ग्राममिति यस्य पूर्वस्य पूर्वस्य जुह्वति जुह्वति सः स एव भवति जान। जान। जान। जान। संक्रामं, संक्रामं भवति जयति जयति तम् तकम् सङ्ग्रामम् सङ्ग्रामम् मान्धुकः सङ्ग्राममिति सङ्ग्रामम् मान्धुक इध्मः विध्मो भवति भवत्यङ्गाराः अङ्गारा एव प्रतिवेष्टमानाः प्रतिवेष्टमाना अमित्राणाम् प्रतिवेष्टमाना इति प्रति विवेष्टमानाः अमित्राणामस्य तस्य सेनाम् सेनाम् प्रति प्रतिवेष्टयन्ति वेष्टयन्ति य उन्माद्य उन्माद्ये तस्मै उन्माद्येरित्य माद्य एतत् तस्मै होतव्या आह होतव्या गन्धर्वाप्सरसः गन्धर्वाप्सरसो वै गन्धर्वाप्सरस इति गन्धर्वा अप्सरसः वा एतम् एतमत् उन्मादयन्ति मादयन्ति यः य उन्माद्यति उन्माद्यत्येते उन्माद्यतेत्य माद्यति एते खलु खलु वै वै गन्धर्वाप्सरसः गन्धर्वाप्सरसो यत् गन्धर्वाप्सरस इति गन्धर्वा अप्सरसः यद्राष्ट्रभृतः राष्ट्रभृतस्तस्मैः राष्ट्रभृत इति तस्मै स्वाहाः स्वाहाताभ्यः ताभ्यः स्वाहा स्वाहेति इति जहोति जहोति तेन तेनैव एवे एनान्श्मयति शमयति नैव्यग्रोधः नैव्यग्रोध औदुम्बरः औदुम्बर आश्वत्थः आश्वत्थः प्लाक्षः प्लाक्ष इति धमः विध्मो भवति भवत्येते एते वै गन्धर्वाप्सरसाम् गन्धर्वाप्सरसाम् ग्रहाः गन्धर्वाप्सरसामिति गन्धर्वाप्सरसाम् ग्रहाः स्वे एनानायतने आयतने शमयति आयतन इत्यायतने शमेत्यभिचरता अभिजरता प्रतिलोमम् अभिचरतेत्यभिचरता प्रतिलोमकम् भवतव्या आह प्रतिलोममिति प्रतिलोमम् भवतव्याः प्राणान् प्राणानेव प्राणानिति प्राणान् एवास्य अस्य प्रती प्रतीचः प्रतीचः प्रति प्रतियोति यौति तम् तन्ततः ततो येन येन केन केन च स्तृणुते स्तृणुते स्वकृते स्वकृत इरिणे स्वकृत इति प्रदरे, प्रदरे प्रदरे वा प्रदर एतद्वै वा अस्यै अस्यै निरवृतिगृहीतम् निरृतिगृहीतम् निरृतिगृहीते निरृतिगृहीतमिति निर्वृतिगृहीतम् निरुृतिगृहीत एव निर्वृतिगृहीत इति निर्वृतिगृहीते एवैनम् एनम् निर्वृत्त्या निर्वृत्या ग्राहयति निरृत्यैदिनिवृत्या ग्राहयति यत् यद्वाचः वाचः क्रूरम् क्रूरम् तेन तेन पषट् विषत्करोति करोति वाचः वाच एवैनम् एनम् क्रूरेण क्रूरेण प्रविश्यति पृश्यति ताजक ताजकार्तिम् आर्तिमा आर्च्छति पृच्छति यस्य तस्य अन्नाद्यमा अन्नाद्यमित्यन्नाद्यम् आददीय ददीयेति इति तस्य तस्य सभायाम् सभायामुत्तानः उत्तानो निपद्य उत्तान इत्युतोत्तानः निपद्य भुवनस्य निपद्येति निपद्य भुवनस्य पते पत इति तृणानि तृणानि सम् सङ्गृह्णीयात् गृह्णीयात् प्रजापतिः प्रजापतिर्वै वै भुवनस्य भुवनस्य पतिः पतिः प्रजापतिना प्रजापतिनैव प्रजापतिनेति प्रजापतिनः एवास्य तस्याम्नाद्यम् अन्नाद्यमा अन्नाद्यमित्यन्नाद्यम् आदत्ते दत्त इदम् इदमहम् अहममुष्या अमुष्यामुष्यायणस्य आमुष्यायणस्याम्नाद्यम् अन्नाद्यगम् हरामि अन्नाद्यमित्यन्नाद्यम् हरामीति इत्याह आहाम्नाद्यम् अन्नाद्यमेव अन्नाद्यमित्यन्नाद्यम् एवास्य तस्य हरति रतिषड्भिः षड्भिर्हरति षड्भिरिति षड्भिः हरति षट् षड्वै प्रजापतिना प्रजापतिनैव प्रजापतिनेति प्रजापतिना एवास्य तस्याम्नाद्यम् अन्नाद्यमादाय अन्नाद्यमित्युन्नाद्यम् आदायर्तवः आदायेत्या आदाय तवोऽस्मै अस्मा अनु अनुप्रयच्छन्ति यच्छन्ति यः यो ज्येष्ठबन्धुः ज्येष्ठबन्धुरपभूतः ज्येष्ठबन्धुरिति ज्येष्ठाबन्धुः अपभूतः स्यात् अपभूत इत्यपाभूतः स्यात् तम् तग्स्थलेः स्थले वसाह्य अवसाह्य ब्रह्मोदनम् अवसाह्येत्यवसाह्य ब्रह्मोदनम् चतुश्शरावम् ब्रह्मोदनमिति ब्रह्म ओदनम् चतुश्रावम् पक्त्वा चतुश्शराव पक्त्वा तस्मै तस्मै होतव्या आह होतव्या वर्ष्मा वर्ष्म वै वैराष्ट्रभृतः राष्ट्रभृतो स्थलम् वर्ष्मणा वर्ष्मणैव एवेनम् वर्ष्मा वर्ष्णसमानानाम् समानानाम् गमयति गमयति चतुःश्रावः चतुःश्शरावो भवति चतुःशराव इति भवति ईक्षु ईक्ष्वेव एव प्रति प्रतिष्ठति क्षीरे भवति भवति ऋतम् एव अस्मिन् दधाति दधात्युत् उद्धरति तदपि श्रुतत्वाय सर्पिश्वाने श्रुतर्वायति श्रुतिपात्त्वाय सर्पिश्वान् भवति भवति मेध्यत्वाय मेध्यत्वाय चत्वारः मेध्यत्वायति मेध्यात्वाय चत्वार आरुषेजाः प्राश्नन्ति पश्नन्ति दिशाम् दिशामेव एवज्योतिषि ज्योतिषिजुहोति जुहोतीति जुहोति देविकानिः निर्वपयेत् वपेत्प्रजाकामः प्रजाकामश्चन्दागुंसि प्रजाकाम इति प्रजाकामः छन्दागुंसि वै वै देविकाः देविकाश्छन्दागुंसि छन्दागुंसिव इव खलु खलु वै वै प्रजाः प्रजाश्छन्दोभिः प्रजा इति प्राजाः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एवास्मैः अस्मै प्रजाः प्रजाः प्रजा इति प्राजाः प्रजनयति जनयति प्रथमम् प्रथमम् धातारम् धातारम् करोति करोति मिथुनी मिथुनी एव तेन तेन करोति थी, करोत्यनु अन्वेव एवास्मैः अस्मानुमतिः अनुमतिर्मन्यते अनुमतिरित्यनुमतिः मन्यते राते अनु राते राका राकाप्रसिनीभावाली सिनीभाली जनयति जनयति प्रजासु प्रजास्वेव प्रजास्विति प्राजासु एव प्रजातासु प्रजातासु गुह्वाः प्रजातासु विप्राजातासु गुह्वा वाचम् वाचम् दधाति दधाप्येताः एता एवनिः निर्वपेत् पपेत्पशुकामः पशुकामश्छन्दागुंसि पशुकामै पशुकामः छन्दागुंसि वै वै देविकाः देविकाश्छन्दागुंसि छन्दागुंसिव इव खलु खलु वै वै पशवः पशवश्छन्दाभिः अस्मै पुशून् पशून् प्रजनयति जनयति प्रथमम् प्रथमम् धातारम् धातारम् करोति करोति प्र प्रयैव एव तेन तेन पापयति पापयत्यनु अम्बेव एवास्मै अस्मानुमतिः अनुमतिर्मन्यते अनुमतिरित्यनोमतिः मन्यते राते राते राका राका प्रसिनीभाली सिनीभाली जनयति जनयति पुशून् पशूनेव एव प्रजातान् प्रजातान् गुह्वाः प्रजातानिति प्राजातान् गुह्वाः प्रति प्रतिष्ठापयति स्थापयत्येताः एता एव देवनिः निर्वपयत् वपयद्ग्रामकामः ग्रामकावच्छन्दागुंसि ग्रामकावैति ग्रामाकामः छन्दागुंसि वै वै देविकाः देविकाश्छन्दागुंसि छन्दागुंसिव इव खलु खलु वै वै ग्रामः ग्रामश्छन्दाभिः छन्दाभिरेव छन्दाभिरिति छन्दनाभिः एव अस्मैः अस्मै ग्रामम् ग्रामव अवरुन्धे मध्यतः मध्यतो धातारम् धातारम् करोति करोति मध्यतः मध्यत एवम् एनम् ग्रामस्य ग्रामस्य दधाति धात्येताः एता एवनिः निर्पपेत् पपेद्योगामयावी ज्योगामयावी छन्दागुंसि योगामयावीति ज्योगामयाभिः छन्दागुंसिवि वै देविकाः देविकाश्चन्दागुंसि छन्दागुंसि खलु खलु वा एतम् एतमभि अभिमन्यन्ते मन्यन्ते यस्य यस्य ज्योगज्योगामयति आमयति छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एवम् एनमगतम् करोति करोति मध्यतः मध्यतो धातारम् करोति करोति मध्यतः मध्यतो वा एतस्य एतस्याक्लृप्तम् अक्लृप्तम् यस्य यस्य ज्योग् जोगामयति आमयति आम मध्यतः मध्यत एव एवास्य एवा एवा तस्य तेन तेन कल्पयति कल्पयत्येताः थी। एता एवनिः निर्वपेत् अपेद्यम् यज्ञः यज्ञो दोपनमेत नोपनमेत् उपनमेच्छन्दागुंसि उपनमेदित्युपानमेत् छन्दागुंसि वै वयि देविकाः देविकाश्चन्दागुंसि छन्दागुंसि खलु वा एतम् एतन्न नोप उपनमन्ति नमन्त्र्यम् यञ् यज्ञः यज्ञो न नोपनमति उपनमति प्रथमम् उपनमतीत्युपनमति प्रथमम् धातारम् धातारम् करोति करोति मुखतः मुखत एव एवास्मै अस्मै छन्दागुंसि छन्दागुंसि दधाति दधात्युप उपैनम् एनम् यज्ञः यज्ञो नमति नम नमत्येताः एता एवनिः निर्वपेत् अपेति जानः ईजानश्छन्दागुंसि छन्दागुंसि वै वै देविकाः देविका यातयामानि देविका यातयामानीव यातयामानीति यातायामानि इव खलु खलु वै वा एतस्य एतस्य छन्दागुंसि छन्दागुंस्यः यी जानः ये जान उत्तमम् उत्तमम् धातारम् उत्तममित्यदुत्तमम् धातारम् करोति करोत्युपरिष्टात् उपरिष्टादेव एवास्मै अस्मै छन्दागुंसि छन्दाकस्य यातयामानि यातयामान्य वा अजातयामानीत्यजातायामानि अवरुन्धे रुन्ध उप उपैनम् एनमुत्तरः उत्तरो यज्ञः उत्तर इत्युतोत्तरः यज्ञो नमति नमत्येताः एता एव एवनिः निर्वपेत् वपेद्यम् यम् मेधा मेधाना नोपनमेत् उपनमेच्छन्दागुंसि उपनमेदित्युपानमेत् छन्दागुंसि वै वै देविकाः देविकाश्छन्दागुंसि छन्दागुंसि खलु खलु वै वा एतम् एतन्न नोप उपनमन्ति नमन्ति मेधा मेधान नोपनमति उपनमति प्रथमम् उपनमति इत्युपनमति प्रथमम् धातारम् धातारम् करोति करोति मुखतः मुखत एव एवास्मै अस्मै छन्दागुंसि छन्दागुंसि दधाति दधात्युप उपैनम् एनम् मेधा मेधानमति मत्येताः एता एवनिः निर्वपेत् उपेद्दृक्कामः ऋक्कामश्छन्दागुंसि ऋक्काम इति ऋक्कामः छन्दागुंसि वै वै देविकाः देविकाश्चन्दागुंसि छन्दागुंसिव इव खलु खलु वै वै ऋगुरुक्छन्दाभिः छन्दाभिरेव छन्दाभिर्तिछन्दहाभिः एवास्मिन् तस्मिन्द्रुचम् रुचम् दधाति दधाति क्षीरे क्षीरे भवन्ति भवन्ति रुचिम् रुचमेव रुचम रुचम मध्यतः मध्यतोधातारम् धातारम् करोति करोति मध्यतः मध्यत एवैनम् एनकम् रुचः प्रचोदधाति धाति गायत्री गायत्री वै वा अनुमतिः अनुमतिस्तिष्टुक् अनुमतिरित्यनुमतिः तिष्टुग्राका राका जगति जगति स्नीभाली स्नेवाल्यनुष्टुप् पूर्वपक्षः वषत्कार इति वषट्कारः पूर्वपक्षो पूर्वापक्षः वाकापरपक्षः अपरपक्षः कुहोः अपरपक्ष इत्यपरः कुहोरमावास्याः मावास्या स्नेभाली मावास्येत्यमावास्या स्नेभाली पौर्णमासी पौर्णमास्यनुमतिः पौर्णमासीति पौर्णामासी अनुमतिश्चन्द्रमाः अनुमतिरित्यनुमतिः चन्द्रमा धाताष्टौ अष्टौ वसवः वसवोऽष्टाक्षरा अष्टाक्षरा गायत्री अष्टाक्षरेत्यष्टा अक्षराः गायत्री एकादश एकादश रुद्रा रुद्रा एकादशाक्षरा एकादशाक्षरात् त्रिष्टुप् एकादशाक्षरेत्येकादशा अक्षरा तृष्टुब्द्वादशा द्वादशादित्याः आदित्या द्वादशाक्षरा द्वादशाक्षरा जगति द्वादशाक्षरेति द्वादशा अक्षरा जगति प्रजापतिः प्रजापतिरनुष्टुप् प्रजापतिरिति प्रजापतिः अनुष्टुब्धाता अनुष्टुपित्यनोऽस्त्र धाता वषट्कारः वषट्कार एतत् ऋषट्कार इति वषट्कारः एतद्वै वै देविकाः देविकाः सर्वाणि सर्वाणि च छन्दागुंसि छन्दागुंसि सर्वा आः च देवता आह देवताविषट्कारः अषट्कारस्ताः अषट्कार इति विषट्कारः तायत् यत्सः सः निर्वपेदीश्वराः निर्वपेदिति निवपेयेत् एनम् एनम् प्रदहोद्वे प्रदः इति प्रादः द्वे प्रथमे द्वे इति द्वे प्रथमे निरूप्य प्रथमे इति प्रथमे निरुप्य धातुः निरुप्येतिनिः उप्य धातुस्तृतीयम् तृतीयम्निः निर्वपेत् प्रपेत्तथोः एव तथो इति तथोः एवोत्तरे उत्तरेणिः उत्तरे इत्युदत्तरे निर्वपेत् वपेत् तथा तथीनम् नं, एनम् प्रदहन्ति दहन्त्यथोः अथो यस्मै अथो इत्यथो यस्मै कामाय कामाय निरुप्यन्ते एरुप्यन्ते तम् निरुप्यन्त इति उप्यन्ते ए तमेव तम एवाभिः एवा आभिरुप उप आप्नोति आप्नोतीत्या आप्नोति आस्थोष्पते पते प्रति प्रतिजानीहि जानीष्यस्मान् अस्मात्स्वावेशः स्वावेशो अननीवः स्वावेश इति सु आवेशः अनबीवो भव भवानः इति नः ेमहे ईमहे प्रति प्रतितत् तन्नः नो जुषः स जिषः सशम् ए द्व्यपदेः द्विपदेशम् द्विपद इति द्विपदेः चतुष्पदे इति चतुःपदेः मास्तो ओष्पदे पते शग्मयाः शग्मया सघंसदाः सघंसदा ते सघंसदेति संसदाः सक्षीमहि रङ्गमयाः रण्मया गातु गातुमत्याः गातुमत्येति गातुमत्याः आवहक्षेमेः क्षेम उत उत योगेः योगेवरम् वरम् नः नो स्वस्तिभिः सदाः स्वस्तिभिरितिः स्वस्तिभिः सुरानः न इति नः यत्सायम् प्रातः सायम्प्रादरग्निहोत्रम् सायम्प्रादरिति सायम् प्रातः अग्निहोत्रम् जुहोति अग्निहोत्रमित्यग्निहोत्रम् जुहोत्याहुतेष्टकाः आहुतेष्टका एव आहुतेष्टका इत्याहुति इष्टकाः एव ताः ता उप धत्ते यजमानः यजमानोः रात्राणि अहोरात्राणि वै अहोरात्राणि रात्राणि रात वा एतस्य एतस्येष्टकाः इष्टकायः याहिताग्निः आहिताग्निर्यत् आहिताग्निरित्याहिताग्निः यत्सायम्प्रातः सायम्प्रातर्जुहोति सायम्प्रातरिति सायम् प्रातः जुहोत्यहोरात्राणि अहोरात्राण्येव अहोरात्राणीत्यहः रात्राणि एवाप्त्वा आप्तेष्टकाः इष्टकाः कृत्वा कृत्वोप उपधत्ते धत्ते दश दश समानत्र समानत्रजुहोति जुहोति दशा अक्षरा दशा अक्षरा विराट् दशा अक्षरेति दशा अक्षराः विराट् विराजम् विराट्ति विराट् विराजमेव विराजमिति विराजम् एवाप्त्वा आप्त्वेष्टकाम् इष्टकाम् कृत्वा कृत्वोप उपधत्ते धर्तेऽथोः अथो विराजि अथो इत्यथोः विराज्येव विराजीति विराजि एव यज्ञम् यज्ञमा आप्नोति आप्नोति चित्यश्चित्यः चित्यश्चित्योऽस्य चित्यश्चित्य इति अस्य भवति भवति तस्मात् तस्माद्यत्र यत्र दश दशोषित्वा षित्वा प्रयाति प्रयाति प्रयातेति प्रायाति तद्यज्ञवास्तु यज्ञवास्तु वा अस्तु यज्ञवास्तुति अवास्त्वेव एव तत् तद्यत् यत्ततः ततोर्वाचीनम् अर्वाचीनकम् रुद्रः रुद्रः खलु खलु वै वैवास्तोष्पतिः वास्तोष्पतिर्यत् वास्तोष्पतिरिति वास्तोः पतिः अहत्वा वास्तोष्पतीयम् वास्तोष्पतीयम् प्रजायात् वास्तोष्पतीजमिति वास्तोः पतीयम् प्रजायाद् प्रजायादिति प्रायात् रुद्रजेनम् एनम् भोत्वा भोत्वाग्निः अग्निरनोत्थाय अनोत्थाय हन्यात् अनोत्थायेत्योत्थाय अन्याद्वास्तोष्पतीजम् वास्तोष्पतीयम् जुहोति वास्तोष्पतीजमिति वास्तोःपतीजम् जुहोति भागधेदेन भागधेदेनैव भागधेदेनेति भागाधेदेन एवैनम् एनगुं शमयति शमयति न नार्तिम् आर्तिमा आर्च्छति गच्छति युजमानः यजमानो यद्युक्ते युक्ते जुहुजात् विहुजाद्यथाः यथा प्रजाते प्रजाते वास्तौः प्रजात इति प्रायाते वास्तावाहुतिम् आहुतिम् जुहोति आहुतिमित्याहुतिम् जुहोति तादृक् तादृगेव एव तत् तद्यत् यदयुक्ते अयुक्ते जुहुजात् जुजाद्यथाः यथा क्षेमेः क्षेमाहुतिम् आहुतिमित्याहुतिम् जुहोति तादृक् तादृगेव एव तत् तदहुतम् अहुतमस्य अस्य वास्तोष्पदीयम् वास्तोष्पतीयग् स्यात् वास्तोष्पतीति वास्तोः पदीयम् स्याद्दक्षिणः दक्षिणो युक्तो भवति भवति सव्यः सव्यो युक्तः अयुक्तोऽथ अथवास्तोष्पदीयम् वास्तोष्पतीयम् जुहोति वास्तोष्पतीजमिति वास्तोःपदीयम् जुहोत्युभयम् उभयमेव एवाकः अकरपरिवर्गम् अपरिवर्गमेव अपरिवर्गमित्यपरिवर्गम् नैवैनम् एनकम् शमयति शमयति यत् यदेकया एकया जुहुजात् जुहुजादर्विहोमम् दर्वहोमम् कुर्यात् दर्विहोममिति दर्वीहोमम् कुर्यात् पुरोऽनुवाक्याम् पुरोनुवाक्यामनोच्य पुरोनुवाक्यामिति पुरः अनुवाक्याम् अनोच्ययाज्ञया अनोच्येत्यनोच्य याज्ञया जुहोति जिहोति स देवत्वाय सदैवत्वा यत् सदैवत्वा यत् सदैवात्वाज यद्धृते उत आदध्यात् आदध्याद् रुद्रम् आदध्यादित्या आदध्यात् रुद्रम् ग्रहान् ग्रहान् अन्वारोहयेत् अन्वारोहयेद्यत् अन्वारोहयेदित्यनु आरोहयेत् यदवक्षाणानि अवक्षाणान्त्यसम्प्रक्षाप्य अवक्षाणानित्यवाक्षाणानि असम्प्रक्षाप्य प्रजायात् असम्प्रक्षाप्येत्यसम्प्रक्षाप्य प्रजायाद्यथा <ísim> राजादिति प्रायात् यथायज्ञवेषसम् यज्ञवेषसम् वा यज्ञवेषसमिति यज्ञावेशसम् वा दहनम् आदहनम् वा आदहनमित्या आदहनम् वा गे, तादृग् तादृगेव मेव तत् तदयम् ण्यन्ते ते योनिः योनिर् ऋत्वियः ऋत्विय इति इत्यरण्योः अरण्योः समारोहयति समारोहयत्येषः समारोहयतीति समारोहयति केशवै वा अग्नेः अग्नेर्योनिः योनिःस्वे स्व एवैनम् एनम् योनौ योनौ समारोहयति समारोहयत्यथो समारोहयतीति आरोहयति अथो अथो इत्यथो खल्वाहुः आहुर्यत् यदरण्योहम् अरण्यो अः समारूढः समारूढो नश्येत् समारूढ आरूढः नश्येत् पुदस्य तस्याग्निः अग्निः सीदेत् सीदेत् पुनराधेयः पुनराधेय इति पुनः आधेयः स्यादिति या याते ते अग्ने अग्नेयज्ञ्याः यज्ञा तनोः तनोस्तया तया एहिह्या आरोह रोहेति इत्यात्मन् आत्मान् समारोहयते समारोहयते समारोहयत इति साम् आरोहयते यजमानो वि वा अग्नेः अग्नेर्योनिः योनिस्वायाम् स्वायामेव एवैनम् येन योन्याम् योऽन्याकुम् समारोहयते समारोहयत इति समारोहयते त्वमग्ने अग्ने बृहत् बृहद्वयः त्वयो दधासि दधासिदेव देवदाशुषेः दाशुष इति दाशुषेः कविर्गृहपतिः गृहपतिर्युवाः गृहपतिरिति गृहापतिः युवेति युवाः हव्यवाडग्निः हव्यवाडिति हव्यवाड् अग्निरजरः अजरः पिता पितानः मम विभुः विभुर्विभावाः विभुरिति विभुः विभावाः सुदृशीकः विभावेति अस्मे सुदृशीक इति सूदृशीकः अस्मे इत्यस्मे सुगार्हवत्याः सम् सुगार्हवत्या इति सुगार्हवत्याः समिषः इषोदिः विदेह्यस्मद्रियक् अस्मद्रियक्सम् अस्मद्रियगित्यस्माद्रियक् संविमीहिः विमेःश्रवागुंसि श्रवागुंसीति श्रवागुंसि त्वम् च सोम सोमनः न वशो जीवातुम् जीवातुम् न मरामहे इति मरामहे प्रियस्तोऽत्रो वनस्पतिः प्रियस्तोऽत्र इति प्रियास्तोऽत्रः ब्रह्मा देवानाम् देवानाम् पदवीः पदवीः कवीनाम् पदवीरिति पदवीः कवीना वृषिः ऋषिर्विप्राणाम् विप्राणाम् महिषः महिषो मृगाणाम् मृगाणामिति मृगाणाम् श्येनो वृद्धाणागुस्वधितिः स्वधितिर्वनाम् स्वधितिस्वाधितिः वनानागुम् सोमः सोमः पवित्रम् पवित्रमिति अर्त्येति ये तिरेभन् रेभन्निति रेभन् आविश्वदेवम् विश्वदेवकम् सत्पतिम् विश्वदेवमिति विश्वादेवम् सत्पतिकंसोक्तैः सत्पतिमिति सत्पतिम् सूक्तैरद्य सोक्तैरिति सूक्तैः रद्या वृणीमहे वृणीमः इति वृणीमहे सत्यसपगम् सवितारम् सत्यसपमिति सत्यासपम् सवितारमिति सवितारम् आसत्येन सत्येन रजसा रजसा वर्तमानः वर्तमानो निवेशयन् निवेशयन्नमृतम् निवेशयन्निति निवेशयन् अमृतम् मर्त्यम् मर्त्यम् चेति च सविता सविता रथेन रथेन आ देवः देवो याति तादिभुवना भुवना विपश्यन् विपश्यन्निति विपश्यन् यथा नो अतिथिः अतिथिः करत् करत्पशे पश्वे नृभ्यः दृभ्यो यथा दृभ्य इति गवेः गव इति गवेः यथा तोकाय तोकायरुद्रियम् रुद्रियमिति तोके तमये तमयेमा मानः नादिषि आयुषिमा मानः न गोषु गोषुमा मानः नो अश्वेषु अश्वेषु रीरिषः रीरिष रुद्रभावितः भावितोऽवधीः वधीर्हविष्पन्दः अविष्पन्तो नमसा नमसा विधेम विधेमतेः इति ते उदप्लुतो न उदात्पुत इत्युदापृतः न वयः वयो अभ्रियस्य अभ्रियस्येव इव घोषाः घोषा इति घोषाः गिरिभ्रजोदा गिरिभ्रज इति गिरिभ्रजः नोमयः ऊर्मजो मदन्तः मदन्तो बृहस्पतिम् बृहस्पतिमभिः अभ्यर्काः अर्का अनावन् अनावन्नित्यनावन् हपुंसेरिव इव सखिभिः सखिभिर्वावदद्भिः सखिभिरिति सखिभिः वावदद्भिरश्म्यानि वावदद्भिरिति वावदद्भिः अस्मन्मयानि नह न अस्मन्मयानीत्यस्मन्मयानि नह नाप्यस्यन् यस्यन्निति वि अस्यन् बृहस्पतिरभिकनिक्रदत् अभिकनिक्रदद्गाः अभिकनिक्रददित्यभिकनिकृदत् गा उत उत प्रास्तौत् अस्तौत् उच्च च विद्वान् विद्वागुम् अगायत् अगायदित्यगायत् एन्द्र इन्द्रसानसिम् सानसिकम् व्ययुम् वयगुम् सचित्वानघम् सचित्वानघम् सदासहम् स जित्वानमिति स जित्वानम् सदा सहमिति सदासहम् वसिष्ठमूतये ऊतये भर भरेति भर प्रसवाहि स्वायुषे पुरुहूत पुरुहूत् शत्रून् पुरुहूतेति पुरोहूत शत्रून् ज्येष्ठः ज्येष्ठस्ते हे शुष्मः शुष्म यह हातिः इन्द्रा आभर भरदक्षिणेन दक्षिणेना वसूनि वसूनि पतिः पतिः सिन्धूनाम् असि रेवतीनाम् रेवतीनामिति रेवतीनाम् सुतस्य सुतस्य पीतये पीतये सद्यः सद्यो वृद्धः वृद्धो अजायथाः अजायथा इत्यजायथाः इन्द्रज्यैष्ठ्याय ज्यैष्ठ्याय सुक्रतो सुक्रतो भुवस्त्वम् परमिन्द्र इन्द्रब्रह्मणा ब्रह्मणा महान् महान्भुवः भुवो विश्वेषु विश्वेषु सवनेषु सवनेषु यज्ञयः इति यज्ञयः भुवो ृविश्चौत्नः चौत्मो विश्वस्मिन् विश्वस्मिन्भरे भरे ज्येष्ठः ज्येष्ठश्च क्षमन्त्रः मन्त्रो विश्वदर्शने विश्वदर्शन इति विश्वाचर्षणे मित्रस्य दर्शने धुरः चर्षणे इति चर्षणि धुरः श्रवो देवस्य देवस्य सालसिम् सालसिमिति सालसिम् सत्यम् चित्रश्रवस्तमम् चित्रश्रवस्तममिति चित्रश्रवः तमम् मित्रो जनान् जनान् यातयति जातेति प्रजानन् प्रजानन् मित्रः प्रजानन्निति प्राजानन् मित्रोदाधारदाधार पृथिवीम् पृथिवीमुत उदद्याम् द्यामिति विद्याम् मित्रः कृष्टीः कृष्टीरदिमिषा अनिमिषाभि अनिमिषेतिनिमिषा अभिचष्टे चष्टे सत्याय सत्याय हव्यम् हव्यम् कृतवत् घृतवद्विधेम घृतवदिति घृतवत् विधेमेति विधेम प्रसः समित्र मित्रमर्तः मर्तो अस्तु अस्तु प्रयस्वान् प्रयस्वायः व्यस्ते आदित्य आदित्यशिक्षति शिक्षति व्रतेन व्रतेनेति व्रतेन न हन्यते हन्यतेन न जीयते जीयते त्वोतः अश्नोति अश्नोत्यन्तितः अन्तितो न दूरात् दूरादिति दूरात् यच्चित् चिद्धि हिते ते विशः विशो यथा यथाप्र प्रदेव देववरुणा वरुणव्रतम् व्रतमिति व्रतम् विनिमसिद्यविद्यवि द्यविद्यवीदिद्यवी द्यवि यत्किम् किञ्च छेदम् इदम् वरुण वरुणदैव्येः दैव्ये जनेः जनेऽभिद्रोहम् अभिद्रोहम् मनुष्याह अभिद्रोहमित्यभिद्रोहम् मनुष्याश्चरामसि चरामसीति चरामसि अचित्तीयत् यत्तव तव धर्मा धर्मा युजोऽपिमा युजोपिमानः नस्तस्मात् तस्मादेन सह येन सोदेव देवरीरिषः रीरिष इति रीरिशः हितवासो यत् यद्रिरिपुः रिपुर्न न दीवि दीवि यत् यद्वाघासत्यम् सत्यमुत उत यत् यन्न न विद्म सर्वा ता तावि विश्य स्य शिथिला शिथिलेव इव देव देवाथ तथा दे, ते ते श्याम श्यामवरुण वरुणप्रयासः